श्रीहरये नमः अथ सप्तदशोऽध्यायः राजोवाच नागालयं रमणकं कस्मात्तध्याजकालियः कृतं किं वा सुपर्णस्य तेनैकेना समञ्जसं श्रीशुक उवाच उपकार्यै वानस्पत्यो महाभागो नागानां प्राङ्निरूपितः स्वं स्वं भागं प्रयच्छन्ति पर्वणि गोपीतायात्मनः सर्वे सुपर्णाय महात्मने विषवीर्यमधाविष्ठक्काद्रवेयस्तु काळीयः कधर्ती कृत्य गरुटं स्वयं तम्बुबुजे बलिम् तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः विजिकांशुर्मकावेघकालियं समुपद्रवत् तमापतन्तं तरसा विषायुतः प्रत्यप्य दुश्रुतनैकमस्तकः तद्भिः सुपर्णं व्यदसत्तधायुतः करालजिह्वोश्वसिधोऽग्रलोचनः तं तास्य पुत्रस्तनिरस्य मन्युमान् प्रचण्डवे गोमधुसूदनासनः पक्षेण सव्येन हिरण्य जगानगतृसुतमुग्रविक्रमः सुपर्णपक्षाभिकथक्कालियोऽतीव विक्वलहा ह्रदं विवेशकालिन्द्यास्तदगम्यं दुरासधम् तत्रैकधा जलचरं गरुटो भक्ष्यमीप्सितं निवारितसौभरिणा प्रसह्यश्रुतितो हरत् मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौहते कृपया सौभरिः प्राहत्तत्रत्यक्षे ममाचरन् अत्र प्रविश्य सत्यप्राणैर्वियुज्येत सत्यमेधत्प्रवीम्यहं तं कालियः परं वेद नान्यः कश्चन लेलिहः अवाचीद् गरुडाद्भीत कृष्णेन च विवासितः कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यश्रघन्तवाससं महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् उपलभ्योतिता लब सर्वे लब्धप्राणायि वावसः प्रमोदनिबृधात्मनो गोपा प्रीत्या भिरेभिरे यशोदारोहिणी नन्दो गोभ्यो गोपाश्च कौरव कृष्णं समेत्य लब्धेह आसन् लब्धमनोरथाः रामाश्चाश्चुतमालिङ्ग्य जगासास्यानुभाववेत् न गागावो वृषावत्सोले बिरे परमामुदं नन्दं विप्रासमागत्य कुरवः सकलत्रकाः ऊचुस्ते काळि अग्रस्तोऽधिष्ठ्यामुक्तस्त्वमात्मजः देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे नन्दः प्रीतमनाराजन् गा यशोधापि महाभाका नष्टलब्ध प्रजा सती परिष्वज्ञाङ्कमारोप्य मुमोच तथा शुचिवनोद्भूतो धावाग्नि सर्वतो व्रजं सुप्तं निशीत आवृत्य प्रधक्तुमुपचक्रमे तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकशः कृष्णं युयुस्ते शरणं मायामनुजमीश्वरम् कृष्णकृष्णमहाभागहे राममितविक्रमा एष घोरो तमो भग्निर्तावगान्ग्रग्रसते हिनः सुतुस्तरान्तस्वान्पाहि कालाग्ने सुगृदः प्रभो न शक्नुमस्त्वच्छरणं सन्त्यधुमगुधो भयं इत्तं स्वजनवैक्लव्यं निरीक्ष्य जगतीश्वरः तमग्निमपि भक्तीब्रह्मनन्तोऽनन्तशक्तिधृक् इति श्रीमद्भगवते महापुराणे दशमस्तन्ते पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय